श्रीमद्भागवत् महापुराणं द्वादशस्कन्ध अथ द्वादशोऽध्यायः श्रीमद्भागवत्की संक्षिप्तविषयशुची श्रोतुवाच नमो धर्माय महते नमः कृष्णाय वेधसे ब्राह्मणेभ्यो नमस्कृत्य धर्मान् वक्षे सनातनान् एतद्वः कथितं विप्रा चरितमद्भुतम् भवद्भिर्यदहं पृष्ठो नारायणां पुरुषोचितम् अत्र सङ्कृतसाक्षात् सर्वपापहरो हरिः नारायणो ऋषिकेशो भगवान् सात्वतां पतिः अत्र ब्रह्म परं गुह्यं जगतः प्रभुवाव्ययं ज्ञानं च तदुपाख्यानं प्रोक्तं विज्ञानसंयुतम् भक्तियोगसमाख्यातो वैराग्यं च तदाश्रयं परीक्षितमुपाख्यानं नारदाख्यानमेव च प्रायोपवेशो राजरसे विप्रशापात् परीक्षितः शुकस्य ब्रह्मर्षभस्य संवादस्य परीक्षितः योगधारण्योत्क्रान्तिसंवादो नारदाजयोः अवतारानुगीतं सर्ग सर्गप्राधानिको ग्रतः विजरोद्धवसंवाद क्षत्रिमैत्रेययोस्ततः पुराणसंहिताप्रश्नो महापुरुषसंसतिः ततः प्राकृतिकः सर्गः सप्तमै कृतिकाश्रये ततो ब्रह्माण्डसम्भूतिर्वैराजपुरुषो यतः कालस्य शूलसूक्ष्मस्य गतिपद्मसमुद्भवः भुव उद्धरणेऽम्भोधे हिरण्याक्षवधू यथा उर्भतेर्यगवाक्सर्गो रुद्रसर्गस्तथैव च अर्धनारी नरस्याथ यत स्वायम्भुवो मनुः शतरूपाचया स्त्रीणाम् आद्या प्रकृतिरुत्तमा सन्तानो धर्मपत्नीनां कर्दमस्य प्रजापतेह। अवतारो भगवतः कपिलस्य महात्मनः देवहूत्या च संवादकपिलेय च धीमता नवब्रह्मसमुत्पत्तिर्दक्षयज्ञविनाशनं ध्रुवस्य चरितं पश्चात्पृथो प्राचीनबर्हिषः नारदस्य च संवाद तत् प्रयवृतं द्विजाः नाभे ततो न चरितं वृषभस्य भरतस्य च रिपुवर्षसमुद्राणां गिरिनन्द्योपवर्णनं ज्योतिश्चक्रस्य संस्थानं पातालनरकस्थितिः दक्षजन्म प्रचेतोभ्यं तत्पुत्रीणां च सन्ततिः यतो देवासुरनरातर्यखगादयः त्वाष्टस्य जन्मनिधनं पुत्रयोश्च दि दितेर्द्विजाः दैत्येश्वरस्य चरितं प्रह्लादस्य महात्मनः मन्वन्तरानुकथनं गजेन्द्रस्य विभोक्षणं मन्वन्तरावताराश्च विष्णोर्भयशिरादयः कौर्मं धान्वन्तरं मास्यं वामनं च जगत्पते क्षेरोदमथनं तद्वन् अमृतार्थे द्विभौकसां देवासुरमहायुद्धं राजवंशानुकीर्तनम् इक्ष्वाकुजन्म तद्वंशुद्युम्नस्य महात्मनः हीरोपाख्यानमन्त्रोक्तं तारोपाख्यानमेव च सूर्यवंशानुकथनं शशादाद्यानुगादयः सौकन्यं चाथ सर्याते ककुत्स्थस्य च धीमतः खट्वाङ्गस्य च मान्धातु सौभरे सगरस्य च रामस्य कोसलेन्द्रस्य चरितं किल्विशापहम् निवेरङ्गपरित्यागोजनकानां च सम्भवः रामस्य भार्गवेन्द्रस्य निक्षत्रकरणम्भुवः ऐलस्य सोमवंशस्य ययातेन हुसस्य च दोश्यन्ते भर्तस्यापि सन्तनोस्तत्सुतस्य च जयाते जेषपुत्रस्य जदुर्वंशो निकीर्तितः यत्रावतेनो भगवान् कृष्णाक्षो जगदीश्वरः वसुधैव गृहे जन्म ततो वृद्धेश्च गोकुले तस्य कर्माण्यपाराळीकीर्तितान्यसुरद्विषः पूतनासु पयपानं शकुटोच्चाटनं शिशोः त्रीणावर्तस्य निष्पेश तथैव बकुवस्तयोः धेनुकस्य स भ्रातुः प्रलम्बस्य च संशयः गोपानां च परित्राणं दावाग्ने परिसर्पतः दमनं कालियस्याहेर्महाहेर्नन्दमोक्षणं व्रतचर्या तु कन्यानां यत्र चितो व्रतैः प्रसादो यज्ञपत्नीभ्यो विप्राणां चानुतापनं गोवर्धनोद्धारणं च शक्रस्य सुरभैरथ यज्ञाभिषेकं कृष्णस्य सृभिः क्रीडा च रात्रिषो दङ्गचूर्डस्य दुर्बुद्धैर्वधूरिष्टस्य केशिनः अक्रूरागमनं पश्चात्प्रस्थानं रामकृष्णयोः दृजस्त्रीणां विलापश्च मथुरालोकनं ततः गजमुष्टिचालूरकंसादीनां त्यजो वध मृतस्यानयनं शोणो पुनः सान्दीपनिर्गुरोः मथुरायां निवसता यदुश्चक्रश्रियं यत्प्रियं कृतमुद्धवरामाभ्यां युतेन हरिणा